तये पाकासुन्दमिषिलप्रणयसिक्लावज्जनयसि सत्यश्चित्तमभिष्टजेकलोपसश्च बाजिनम् सास्माकमनवर्जतुजानवेदसामिमाम् वाचन्न वेधसा तत्स्रूधिय स्मावृता नासुकाशो चिद्रक्षाय इन्द्रफलाहूतजेन्द्रुभिरसि प्रतोऽर्थजेन्द्रभिः यत्सूरैस्वा अस्तनीताजोऽभिप्रेद्वाजन्तरूता अमीदानादायसन्तवाजिनम् रक्षमत्यन्नवाजिनम् तदस्मो हिष्मा विषालम् पिन्वासि त्वम् कञ्चिद्यावीररम् सूरमत्यम् हरिवृणक्षिमत्यम् इन्द्रो तदुभ्यम् तद्दिभे तद् रुद्राय स्वजाससे मित्राय वोचम् वरुणाय सप्रथः सुमृणीकाय सप्रथाः अधस्माकम् वैन्द्रमुत्मशिष्टजेसखायम् विश्वायम् प्रातःयुजम् वाजेषु प्रातःयुजम् अधस्माकम् ब्रह्मोदयदेवाषकासुचित् न जित्वा सत्रस्तरते सृणोषियम् विश्वम् सत्वम् शृणोषियम् निषो नमादिमदिम्बयस्य जक्ते ज्यष्टाभिरणेभिर्नोतिभिरुद्राभिरुद्रोतिभिः नेषे नो यथा पुराणेनासूरमन्यसे विश्वानिपूरोरपावर्णिवह्नि राजावह्नो अच्छ ोजे शम्भव्याजेन्द्रेहव्यो नय जिषवान्नरे जाति रक्षोहा मन्मरे जाति स्वयम् सो अस्मदा निदो बधैराजेतदम् मतिम् अवस्रवेदघ सन्दोपतरम क्षुद्रमेव श्रमेत् वनेम तद्धोत्राया चिदन्त्या वनेमानयम् राजवस्वीर्यम् न्तम् सुवीर्यम् धुर्ममानम् सुमन्तु धिरे मिषा व्रेचीमहि सत्याभिरन्द्रम् जुम्नहो दिधर्यत्रम् <laughs> जुम्नहोलिभिः प्रप्रावो अस्मेश्वरसोऽभिरुचीरिवर्ध इन्द्रो दुम्मदीना दधरीमन् दुम्मदीना स्वयंसारेण ध्येया न उपेशे अत्रै हते मा सन्न वक्षति क्षिप्ता योनिर्न वक्षति स्वन्ना इन्द्रराजापरी न याह सा याहि रक्षसा स च स्व गिनो दूरादारादभिष्टेभिः सुता बाह्यभिष्टेभिः सु इन्द्रराजातरुग्रम् छिक्त्वा महिमा चक्षतभासे महे मित्रम् नाभासे ओजिक्षत्रादबीदार सङ्कम् जीदमत्या अन्यमस्मग्रीरिषयञ्जीद्रिभोरिक्षन्तम् जिद्रिवः वाजिना इन्द्रदक्षदस्रुतो वयाता सदमिद्वम् मदीनाम् देवः सन्द्वम् मदीनाम् हन्ता पापस्य रक्षस्राता विप्रस्यमापातः अथाभि जनिताजीजनध्वजो रक्षो भगम् त्वाजीजनध्वसो ह्युपानः परावतो नायमच्छा विदधा निवसत्त्वादिरस्तम् राजे वसत्त्वादिः अपामहे त्वा भयम् रजः सदा पुत्रासो न पितरम् वाजा सातजे मम् निष्ठम् वाजा सातये विभासोपमिन्द्रसुपानाद्रिभिक्को से न मम्स गादृशानो नमंसा गः मदाय हर्यथा जासे तु विष्टमा यथाजासे आत्वा यच्छन्तु हरिजो मसूर्य महाविश्वेभसूर्यम् अभिन्दवो निहितम् गुहानिधिम् वेन्न गर्भम् परिवेगमस्मञ्जनन्ते अन्तरस्मानि वृणम् भद्रीगवानिवसुषा सन्नङ्गीरस्तमः परीवृता द्वारयिषः परीवृताः राजृहा भज्रमिन्द्रो भज्रोक्षिग्मसानायसं स्यात् हिहर्त्यायसं स्यादिर्ज्ञानभो जा जादवो वीन्द्रपद्मना अष्टेव वृक्षम् वनिनो निवृष्टसि जान्द्रसप्तवेच्छा समुद्रमासृजोरथा वाय यतोरथायञ्जदसमानमर्थमक्षीतम् धेनोरिपमना वय विश्वतोहतो जनाय विश्वतो हतः जन्ता आजभोरथन्न धीनः स्वपा अदक्षिणः सुम् नाय त्वामा दक्षिणोः शुम्भन्तो जेन्यम् यथा वादेशु जे विप्रभाजिनम् अत्यानिवसव से सातजेधना विस्वाधनानि साधये िनत्वमिन्द्रपूरभेदिको दासाय मही दासुटे रुतो भज्रेण दासुटे ऋतो अतिथिवायसंवरम् गिरे रुग्रो अवाभरत् महो धना निरयमानवो जयसा विश्वाधनान्यो जयसा इन्द्रः समत्सेयमानमार्यम् प्रभ्जिश्रेष् समोदिमाजिषु स्वर्णे रेष्वाजिषु मनाभेसदम्भ्रताम् कृष्णामारन्धयत् तत्क्षन्न विश्वम् तदृशानमोषधिन्यदृशानमोषधि ूरश्चक्रम् प्रवेहज्जातवो जात्तेवाच मरुणोमूढायति शाणामूढायति कुशनायत्रा रावतो जगन्मोदये गवे सुम्नानि विश्वामनो नैव दुर्वनिरहा विश्वे दुर्वणीः स लोलव्ये भरुष कर्मन्मुक्थै पुरान्धतः पायुभिः पायुषक्मे ङ्गस्तवा नो वावृधीतारोभिर्मजौ इन्द्रायैजो रसोरोहणम् मदेन्द्राय मयी पृथिवीपरीमभिर्जुम्नसा परीमभिः इन्द्रम् विश्वे स जोरासो देवासो दधे पुरः इन्द्राय विश्वासमानाजिमानुषा राजानि सन्धृमानुषा विश्वे ऋगिलासमानेषु तुञ्जले समानमेकम् मृढ मञ्जभृथक् स्वपृथक्म् बाला भन्न पर्षणिम् शोषस्य दुरि धीमहि इन्द्रन्द यज्ञे स्थिरयन्द आजभस्तो मे त्वा ददश्रे चुनावस्य मो व्रजस्य साता गम्यस्य निःसृजः सम् दयिन्द्र निःसृजाः यद्गव्यन्ताद्वाजना स्वा अहर्यन्ता समूहासि आविष्करि विदृष्टे अस्य वीर्यस्य पूर्णः पुरो यदिन्द्रधीरवातीर श्रासहारो अवातीरः शासस्तमिन्द्रमत्यमयध्युम्सते महीमापृष्णाः पृथिवी हिमा अपोमन्दशा अस्य वीर्यस्य चर्गिरन्मतेषु वृषणन्वशिजो यथावीत सखी यतो यथावीत जगर्थ कालमेभ्यः पृता ना सुप्रवन्तवे ते अन्यामन्याम् नद्यम् सनिष्णदश्रपस्यन्तः सनिष्णत ुतो नो अस्याषसो जुषेदस्याोधिहभिषो हवीमभिः स्वर्गा दाहवीमभि यदिन्द्रहन्त वेमृधो मृषावध्यञ्चिकेदसि आमे अस्य वेमृसोजसो मन्दश्रुति हवीयसः न्द्रवावृधानो अस्मजुना वित्रयन्द्रम् भज्रेणो रात्यो अघायति सृष्टसुश्रवस्तमः ऋष्टम् न यामन्नपभूतदुर्मतिर्विश्वाभूतदुर्मति पजाभयम् वामनन्वोधन इन्द्रत्वतो वा निजाम मनुष्यदः े तिष्ठे अस्मिन्नहन्यजीवो जानसुम्भरे अस्मिन् यज्ञे विजाये वा भरे कृतम् वा जयन्तो भरे कृतम् स्वदेशे भर आप्रस्य मग्मन्युषर्बुधस्वस्मिन् मञ्जासि क्राणस्य स्वस्मिन् मञ्जासि अहन्निन्द्रो यथा विदेशीष्णासीष्णोपवाच स्मत्राते सध्यत्सन्तु रातयो भद्र भद्रस्य रातजा तप्रजः प्रत्वता यस्मिन् ये वा रमकण्डदक्षय मृतस्य वाराधिक्षयम् विदल्पोचेरथद्विदान्तः पश्यन्ति सखा विदे अन्विन्द्रो गवेषण गवे नो बन्धुक्षिभ्यो गवेषा नो यदि छा ते पूर्वथा प्रवाच्यम् यदङ्गीरोऽभ्यो ऋणोरपभ्रजमेन्द्रेक्षपभ्रतम् अयिभ्यः सुन्वद्भ्यो रन्धजाकञ्चीरव्रतम् गृणायन्तम् जिनव्रतम् संयजनान् कृतोभिः सूरयेक्षयद्धने हिते तरुणन्तश्रवस्य वप्रयच्छन्तश्रवस्य वा तस्मायुः प्रजापतिर्बाधे अर्चम् योजयसा इन्द्रभोग्यम् दिगन्तधीतयो देवानधीतया इवम् तमिन्द्रापर्वदा पुरोयुधा यो नः प्रथन्याद पलन्तद्धकम् वज्रे रदन्तम् दूरे चर्चा यच्छन् सद्गः नञ्जति रक्षत् अस्माकम् सत्त्वोन्परेशूर विश्वतो धर्मादर्शेष्टविश्वतः भे पूना विरोदसीहृते न गृहो रहमिलम् वैरनि अभिर्वर्जयत्रा हता अमित्रा वैलस्थानं परिदृढा असेन अभिर्वज्या चिदग्रिवशीर्षाया तुमतीना छिन्दिव डोरिणा पदा महावडूलिना पदा मघवञ्ज हि शब्धो जातुमदीना वैरस्थालके अम्भगे महावैरस्थे अम्भगे यासाम् निःस्रः पञ्चासतो हिम् नैरत्सुते मनायति च कत्सुते मनायतिशङ्गमम् घृणम् पिशाचिमिन्द्रसं वृण सर्वम् रक्षो निबन्धय अवर्महारः सुधीरः सुद्रिवो धृणान्नभिद्रिवः सुष्मिन्द्रमोधि सुष्भिर्वे रुद्रे भीयते अभवोरुढध्नः प्रतीदसो रसत्ताभिस्त्रिसतैषो विस्त्त रसत्ताभिः वि मानो यन्मनक्षयम् परे न स्वन्मानो यद्माय जत्युषो देवा नाम भद्विषाः सुन्मानयत् शेषा सति सहस्राज्यवृतः सुन्मानायेन्द्रो दात्याभुवम् ो रहाभित्रयो वायोमहम् विह पूर्वमीदये लोमस्य पूर्वमीदये ऊर्ध्वा ते अनुसूनृता मनस्तिष्ठतु जानति नियित्वा दानधेना याहि दावने दावने वन्दनम् धृत्वा मन्दिरो वा जलिन्द्रभोस्मत्क्राणा सत्सुता अभिद्या भोगोभिः क्राणा अविद्या वा यद्धाणाजिरध्यैल कान्धुरन्दभूतयाः सद्धिना युतो धावनेयौ ब्रुवतजीर्धयाः के वाजुर्युम् केरोहीता भाजुरार्णा भाजुरसे अधिराधुरिवोला वे वहिष्ठा धुरिवोला मे प्रभो रजापुरम् भिम् जालहासतीमेव प्रदक्षजरो दासे वासयोरस्रवासे वासयोरसाः तोभ्या मुटा सृचा यः परावती भद्रावस्त्रादन्वतेनसु रश्मिषु चित्राल्येषु रश्मिषु तुभ्यम् धेनः स भर्दुकाविश्वामसूनिरोहते अजारजो मरुतो भक्षणाभ्यो दिवा भक्षणाभ्यः तुभ्याम् शुक्राशश्रुजायस्तुरन्यभोमलेषुग्रायीषमन्तभुर्वण्यपामीषन्तधुर्वणि त्वाम् शारीरसमानो भगवमीर्तेदः कबीये त्वमविश्वस्माद्भुवानात्पासि धर्मणा सूजात्मासि धर्मणा स्वन्नो राजवे रामभूढ्यः सोमानाम् प्रथमः प्रीतिमर्हसि सुतानाम् प्रीतिमर्हसि उतो विहत्पादीनाम् दिशाम्बुषीणाम् विश्वालित्ते धेनवो दुःख आसीनम् ऋतम् दुःह्रत आसीनम् ीर्णम् दर्हि वीतये सहस्रे नुतायुत्वते सतनीभिर्नियुत्वतेभ्यम् हि पूर्वपीतये देव देव जय जय मिले हृते सुता सोमधुमन्तो अस्थिरन्मदा जक्रत्वे अस्थिरन्मे ोऽभ्यायम् सोमः परीभूतो अद्रिभिस्पार्धावसानः परिगोसामर्षति शुक्रावसानो अर्षति तभायम् भागायुषु सोमो देवेषु महाबायो नियतो याह्यस्मयर्जुषाणो याह्यस्मयो यद्भिश्चिनीभिरध्वरम् वे सहस्रिणीभिरुपायाहि वेदये वायो हव्यादिभीदये सर्वायम् भागरित्ययः सरस्विशो ये स च अध्वर्यभिर्भरमाना अयम् सदवायो शुक्ला अयम् सदा आहाम् रषो निजित्वान्वक्षदवासे भित्रयाम् सुधीतानि भीतये वायो हव्यानि भीतये वादम् मध्वो अन्धधः पूर्वमेजम् हि वाम् हिताम् वायवाचन्द्रेण राधसागातमिन्द्रश्च राधसागातम् ो भवत्युरध्वरा उभेममिन्द्रम् वर्मृजन्तभाजिन वासुमध्यन्नवाजिनम् तेषाम् विपदमस्मयू आणो गन्धविहोद्या इन्द्रवायो स रामत्रिभिर्युवम् मदायवाजदायुवान् इमेवाम् सोमा अप्सायुगाद्भर्युभिर्भर माना, माना अयम् स दवायो शुक्रा अयम्सरा एवामभ्य शुक्रदः पवित्र मासमाः युगायवो धिरोमान्यजा सोमासो अत्यब्ज अनुमायो स सतोजायत्र ग्रादादि तत्रा गच्छतम् घृहमिन्द्रश्च गच्छतम् पिसो नृतानुद्रेशे रीयते घृतमापूर्णया नियुता याथो अध्वरमिन्द्रश्च याथो अध्वरम् अत्राहतत्वा हेते मध्वाभूतिं यमश्वत्थमोपरिक्षायभोऽस्मेवाः का थे थे सा गङ्गा वस्तु वा देवच्च तेजबोनदेवायमुपादस्यन्ति धेन बोनापादस्यन्ति धेन वा इमे ये ते सुवायो वा महिलाधन्तभुक्षणाः धन्वञ्जिद्ये अनासवो जीराश्चिदगीरौवसः सूर्यस्यैव रश्मयो दुर्नियन्ता वो हस्तयो दुर्नियन्ता वा रसृज्येष्ठाभ्याम् गृहम् नमो हव्यम् मतिम् भरदाम् नृलयद्भ्याम् स्वादिष्ठम् नृलयद्भ्याम् <laughs> राजा घृता सूती यज्ञे यज्ञमुपस्तुता क्षत्रम् न कुतश्च नाधृषे देवत्वम् नो चेदाधृषे अधर्षि गातुर्ेवरीयसीमन्धा हृदस्य समाजम् स रश्मिभिश्चर्भगस्य रश्मिभिः यक्षम् वित्तस्य दादानमर्जम् च अथा ददाते बृहदुःख्या अम्बजा ज्योतिष्मदीपदीदिम् धारय क्षीतम् स्वर्वदीमास चेते दिवे दीवे जाघृमांसा दिवे दीवे ज्योतिष्मक्षत्रमासाते आदित्यादानो नस्पती मित्रस्तयोवरुणो यादयज्वानोर्जमायादयज्ञानः अयम् मित्राय वरुनाय सन्तामस्सोमो भो त्वभवानेष्वा भागो देवो देवेष्वा भागः तम् देवासो जुषेरकविस्मे अद्य स जोष तथा राजानागरथो यतीमाहरता वानायतीमाहे यो मित्रायमनु नाजाबीधज्जनो नर्वाणम् तम् मदीपातो स्वाम् संवर्तमम् जादा तमर्यमाभिनक्षत्यजोजन्तमनो व्रलाम् मुक्थैर्ये माः परिभूषादिव्रलम् सोमैराभूषादिव्रलम् नमो दिवेहतिरोदासीभ्याम् निराय वोचम् वरुणाय मेरुषे नृराय मेरुषे इन्द्रभग्निमुपस्तुहि जक्षमर्यमनम् भगम् भगं। भीमन्त प्रजया स चेमहि सोमस्योती स चेमहि भूतेदेवानाम् वयमिन्द्रावन्तो माम् सेव सोमरुद्भिः आग् मित्रो मरु नः शर्म अयम् शान्तनः श्याम भगवानो वयम् च भद्रम् नो अपि वादयमनाः ओ ओ या दमद्रे भर्गो श्रीदावत्सरा जिमे सोवासो वत्सरा इमे आराया नाजि स्मृता स्मत्रागन्तमुपानः इमे राम् निरुणागवाधिरः सोवानुप्रागवाजिरः इमायातमिन्दाभः सोमासोदध्या शिरः सुदासोदध्या राधिरः ुधवाकम् सूर्यस्य रस्मिभिः सुतो मित्राय वरुणाय पीतये राराय पीतये ताम् वा धेन शरीमांसम् दोहन्त्यद्रीभिः सोमम् दोहन्त्यद्रीभिः अस्मत्रागङ्कमुपोर्वाञ्च सोमापीतये अयम् माम् मित्रावरुणागृह मा सुदस्तो महापीतये सुतः प्रप्रोष्ठस्तु विजातस्य सस्यदेव इत्तमस्य तमसो न सुन्दरे स्तोत्तमस्य न सुन्दरे अहचामि त्वम् नयन्नहमन्त्यो जिम्बोभुवम् इष्टस्य यो मल देव आयुजुबे तो मेभिष्ठोनपि परो वृथाः उमेयक्त्वा मजोभुवम् देवम् धख्यायमर्त्याः अस्माकमाङ्गूढा जुम्निनस्कृति वाजेषु जुम्निनस्कृति यस्य ते पूषाम् सङ्ख्येऽपि मन्यमक्रत्वा कृत्सन्तो वा सा बुभुज्विरयिति कृत्वा बुभुज्विरे तामनुत्वानवीय वियुतम् राजयीमहे अहेलमानपुरुषम् सशरीभव बाजे वाजे शरीभ अस्या भूषणमुपासातये भुवो हे लमानोररिवाजास्व समस्य नाम जास्व भोषुत्वा ममृति बहिस्तो मे भृन्दस्व साधुभिः नयित्वा भूषन् न जिमन्य सख्यमा बन्धुमे अस्तु श्रौ षट् पुरो अज्ञम् धिजादधालच्छो दिव्यम् व्रेणीमह यद्धक्राना वृणीमहे शर्धक्नाश्वादिनाभासन्दायिन व्याधि प्रसो न उपायन्तु धीतयो देवान्न छानधीतयाः धत्यन्मित्रावरुणामृता दध्या ददाते अनृताम् स्वेन मञ्जुला रक्षस्य स्वेन मञ्जुनाधितद्वत् स्वस्यामहिरण्रम् देभिश्च न मना सा स्वेभि रक्षभिः सोमस्य स्वेभि रक्षभिः युवां सोमे भृदे भयन्तोऽश्रिया श्रावयन्तलिभोकपायवो युवा भव्याभ्या आयवाः युगोर्विश्वा अधिश्रियः प्रक्षश्च विश्वमेधसा रुजन्ते वाम् अभयो हिरण्यजे रथेदस्रा हिरण्यये दस्राव्यो नागामृण्णथो युञ्जसे वाम्यथ युजोदिविष्टिष्व भस्म नो दिविष्टिषु अथे वांस वा बन्धुरे रथे दस्रा हिरण्ये अथे वयन्ता वजु स मा वातिरुपात सत्कदाचन स्मद्रातिः कदाचन गृहन्निन्द्रबृणपाला स इन्द्रपजिमे सुता अद्रेषु दास बुद्भितस्तुभ्यम् सुदास उद्भिदाः ते त्वा मन्दन्तु रावणे महे चित्रा जराधासे गेर्भिर्गिर्वाहस्तव मा नागाहि समृढे को नागाहि ोषो नाग्नेशिकमे देवेभ्यो ब्रमसि यज्ञयेभ्यो राजभ्यो यज्ञयेभ्यः अर्थच्चमङ्गीरोभ्यो धेनुम् देवा अधत्तन विलाम् नृ क्रे अर्यमाधत्तरे सच येषाम् वेदमे स मोषो अस्मद्विधाम् शाला होरञ्जुना निमोदजारिणुरस्मत्पुरोदजारिणुः यद्मश्चित्रम् युगे योगेन व्यङ्घोषादमत्यम् अस्मासु तन्मारुतायच्च दुष्टनम् दुहृदायच्च दुष्टनम् तज्जन्ध मे धनुषम् पूर्वो अङ्गीराप्रिय मे धन्भो अग्रिर्मलर्विदस्ते मे पूर्वे मनुर्विदुः तेषाम् जमेश्वायाचिदस्माकम् तेषु लाभायः तेषाम् पदे नमह्यान मे गिरे आन मे गिरा भूता यक्षध्वनिनो बन्धवार्यम् रहस्पति विगजति वेन वृक्षभिः पुरुवारेभिवृक्षभिः निर्मा दूरादिशं श्लोकमध्येण धना रजतरन्दानि सुक्रतुः पुरुषद्माणि सुक्रतो अप्सुक्षितो महिलैकादशस्थे दे देवासो यज्ञमिमञ्जूरध्वम् वेतिषे प्रयतामायसुज्युते दासमे वप्रभ रायो निगये वस्त्रेणेव वासयामन्नाशुचिम् ज्योतिरासंक्रवन्दन्तमोहनम् अभिद्विजन्नातृदन् न मृद्यते नवत्समेवा वृधे गण्डनी गुणाः अन्यस्या सा दिक्पजाते न्यो मृणा अन्येन मनिनो मृष्टारणः वृष्णप्रदो वेभिस्य रक्षिताः उपाता राजा जिह्सजनन्दम् दृश्यसमासाख्यम् उपाजंवर्धनम् <laughs> विदुः कोमलमे मानवस्यते राद्रुवः कृष्णचीता स भोजुवाः समनाः गिरासो रघुक्षोपासजूता उपायुज्यन्त आसवाः रे ध्वजयम् करिक्लः यत् श्रीयम् मयि मम निम्प्राभिमङ्ग्रे तदभिस्मस्तन जन्मेतिनादत् भूषन्मजो देभ्रूषम् न ते वृषे मत्री रभ्येतिरोपत् भोजायमानस्तन्वश्च सुम्भते भीमो न शृङ्गारि धावधृग्भिः संस्थिरो विष्टिरः सङ्ग्रे भाजति जानन् नमजाहध्यादाय पुनर्वर्धन्ते अपि यन्ति देव्या मन्यद्वत्मः पित्रो कण्ड्वते सजा समग्रवत्तेभूर्ध्वास्तश्चर्मम् गृहे प्राय मे पुनः जनाम्ना मुञ्जन्ये निरानादशम्बरम् जनयन् देवाश्रुतम् अधीपासंबरी मातुर्यादिविद्रयाः पशोदैरेणी सजतेवीरः अस्माकमग्ने मगवत्सु दीर्विष्युषबोदमूनास्याषु मदीरदीदे युत्सुपादर्भूराणः इदमग्ने सुधीरम् दुर्धी दादधीर्यादो चिन्वन्ना न क्रेयो अस्तु ते जगत्ते सुन्द्रम् दन्वो ओरोच तेषु चितेनास्मभ्यम् वनसे रत्नात्मम् तत् तथा जना वा मृत नो गृहायलित्याग्ने अस्माकम् वीरा मघो नो जनाश्चया पारजातम् अवीनो अग्नबुद्ध विद्योर्याद्याः क्षामासिन्धवस्य सोदाम् यव्यं यन्तो दीर्घायेषम्बरावर्ण्यो भवन्तभूषेधास्य वर्गः सौ यथो जनि यदेव बह्वे साधते दे मतिर्कृतस्य धेनाः अनयन्तसश्रुताः वृक्षावः पितुमान्नित्यासप्तसीमासु मातृषु तृतीयमस्य मृणभस्य दोहसेतसप्रबलिम् जनयन्तयोषाणः निर्जले मुद्राण्रस्य साक्रन्दसूदया प्रतिवो मध्व आधरे गुहासन्तम् माधरिष्वामथायति प्रयत् विदुः परमाणीयते पर्याभृक्षुधो विरुधो तम् सूरोहरि उपायदस्य जनुषम् यदिद्यष्ठो अभवद्धृणा शुचिः आयन् मातृरावि सद्याश्वासु जिलहिंस्यमान उर्भिया विवाभृते अहयत्पूर्मारोत्सनादि बोधिनव्यासीष्व राशु धावते आयिद्धोतारम् वृणते द्विवेष्टिषु ्यत्कृत्वा मत्मना पुरुषतो मर्तम् विश्वधावेदिधायासे यदश्चाद्यो बाध्योदितोह्वा नो न वक्वा जननागृतः तस्य पद्मम् दक्षुणः कृष्णजम् न सश्रुजीजन्मलोलजहारः रतो न जातः शिक्वाभिः कृतोऽद्यामङ्गेभिरऋणेऽभिरीयते आदस्यते कृष्णातो दक्षितो नो नस्येव ते तथाधीयते पयाः वया ह्यज्ञेवलो नो धृतव्रातो विन्द्रः सा सन्द्रे यस्येव रक्रतो न विश्वसा विभुरजान्न मेमिपादिभूरजायधाः त्वे सरमानाय सुन्वदे रत्नम् जगेष्ठदेवतान् त्वानुलव्यम् सहसो युवन् भज भारे महि रत्न धीमहि हस्मे रजन्न स्वच्छन्दमो न सम्भगन् न छन्द रस्मैभयोजमधिगन्मानि उभे देवानाम् संसृता च सुक्रतो पुरः श्रुत्योत्मा जीरास्वहोदा मन्द्रश्रेणन्द्ररथः समाने रङ्गेरमेरोग्निर्वामंसो विगम्बस्य अच्च ्यग्निस्विरर्पैः साम्राज्याय प्रधनम् दधानः हमि च ये मघवानो वयम् च मिहन्दसो रातिनिष्टो समिद्धोर्हदेवा च यदश्रु चे नृताम् तमुपामासि मधूमन्दम् तनूरपा यज्ञम् विप्रस्य मावस्व समानस्य दासुषाः श्रुजिह्मको अद्भूतो मध्वा यज्ञम् मे वीक्षति न राजम् सहस्रिरा जिवो देवो देवेषु जज्ञियाः गीरितो अग्न महेन्द्रम् चित्रमिह इयम् जित्वा भजर्ममाच्छासृजिह्वा मच्यते स्नासो यतश्रुतो बलिज्ञे स्वध्वरे रञ्जे देवम् यदस्तममिन्द्रायशर्म सप्रथाः विश्राजन्तामृतामृतः प्रदी देवेभ्यो मही आपगादः पुरस्पृहाद्वारो देवीरसः आभन्धमाने उपाकेन क्रोशा सा सु सा यज्ञीरुदस्य मातरासीदताम् बलिरासुमत् मन्द्रजिह्वाजुगुर्वणि राजेवा कवि यज्ञम् यक्षता विमं सिद्धमद्यति विस्पृशम् श्रुषिर्देवेष्वत्पीता होत्रा मरुत्सु ीला सरस्वती महीधर्हि सीदन्तु जिज्ञयाः तन्नस्तु नैवमद्भूतम् पुरुवारम् पुरुत्मना तष्टापोषायमिष्यातु राजेनाभावमयोः अवसृजन्नुपत्मना देवाण्यक्षिप नस्मते अग्रर्हव्याशुषोदति देवो देवेषु मे धीरः भूषण् भरुत्वा ते विश्वदेवाय वायवे स्वाहा गायत्र रे हव्यन्द्रा जगत्तरा स्वाहा कृतान्या गह्युपह्यानि वीतये इन्द्रागाहि श्रुति हवान् आम्भन्ते हध्वले धीति प्रथम्यासी न व्यासी भीतिमग् सूनमे भवे भवान्न आद्यो वसुभि सियो पृथिव्याम् जायमानः परमे व्यो मन्यामिहग्निरभवन्मातलिस्वने अस्य क्रत्वा संविधानस्य मध्वना प्रत्यावासो यः पृथिवी आरोचयत् अस्य ते अजराः अस्य मानवस्व सङ्कृतस्तु प्रतीकस्य सुद्युताः मात्मक्षसो अत्यकम् न सिन्धा भो द्वे जयन्ते अजराः यमे ऋगापो विश्वमेतसाङ्गाभा पृथिव्या भुवनस्य मत्मना अगनीताङ्गीर्तिर्भीस्वादमे जे कोप स्वणो न राजाति न यो वराजमरुतामिव स्वनसेण दृष्टा दिव्यायथा सनीः अग्न्यर्जम्भैस्ति गिरैरत्यभर्वादि योधो न सक्रान् सम्यते कुविन्नो अग्निरुच वीरसद्वसः कुविद्वसो धिक्कामामरान् शोधः कुवित्तु दुद्या सादयेधि प्रदे मन्दमजाधियाग्रीडे सामिधानरञ्जते इन्धारो अक्लो विदधेच्छुक्रवन्नामधूनायम् दतेधियम् अप्रायच्छन्नप्रायच्छद्भिरग्ने शिवेभिन्नपायभिः पायि सग्मै अदब्धेभिरद्रेभिदेभिरटे नेमिरद्भिः प्रदेपाहि नोजा ये दि प्रभोदा भस्य माजजोर्ध्वा मृदा द्धा न श्रुतिपेदसन्ध्यम् अभिस्रुतः प्रमले दक्षिणामृतो ज अस्य धाव प्रथमम् दोहना अनूषतजोरौ देवस्य सदाने परीवृता तो यदा वा स दधस्वधादयते योषधः समायसा दधि स मस्मदा वोढम् न रश्मीम् समायाम् स्तुराधिः यीम् द्वासमायसा स पर्यतः समाने यो म् बलितो युवाजनिपुरोचरम् न च लोपालोषायुगा नेन्वान्ति देवम् मत्ता स्वभूतये हवामहे न लोदधिप्रमता सम् गच्छयुमानवाभि े दिव्यस्य राजासि त्वम् पार्थिवस्य पशुपाजी भत्मनाश्रिया हिरण्यजीवक्पा हि बलिरासादे अग्ने दुरः सम्प्रति हर्य तद्वचो मन्द्र स्वधा भरत जात शुक्रतो यो विश्वदप्रत्यङ्गीदो रण् सन्द्रष्टो विधुमाङ्गी अक्षयाः संवृच्छता स जा गा मासवे दशती कृत्वा सान्ते तस्मिन् सन्धिप्रचृढस्तस्मिन् निष्टयः स वा यस्य ृच्छन्ति नृच्छति अग्रीत् न वृष्यते प्रथमम् नापरम्बो सजते अप्रा घ्रिमिदः तविर्गच्छन्ति जुत्वा हस्तमर्वाचीर्विश्वान्यतांसिरे पुरुप्रैस्तदूरर्यताद्रा दत्त संरभाः पुरस्थायम् चर नियत्समारत सद्यो दातस्तत्सारयुज्येभिः अमिश्रान्तम् वेशते नान्त्ये मुदे यदीम् कथ्यञ्जु सतीराभिष्टितम् ी मृगोऽप्यो मनद्गुरुपद्वत्युपमस्याम् निधायि या ब्रवीद्वयोनामर्तेभ्योऽद्वाङ्गः भो